धनस्व ॐ ध्यायामो धामयी स्नेधापाङ्गी मृदान ओमृतेश्वर्यै नमः ॐ अमृतेश्वर्यै नमः ॐ अमृतेश्वर्यै नमः ॐ गणानाम् ओस्तनम् ज्येष्ठराजराज मानश्रुमनुर्भनम् ॐ श्रीमहा महागणपते o devi sagat patihi bhoti devi vaji bhiti he namavitra vatum va devi namaha so we are learning navagra sutram shall we stay from the very beginning till uh, uh, saneshthraya namaha yes yeah. okay okay everybody ready okay 1 2 3 सर्वोपशान्ति तपः सत्यं जीवस्य धीमो चोदयात् आपो ज्योतिन्द्रह्म भूवस्वरो ममो पात्रीत्यक्तम् आदित्यादित्यादित्यर्थम् आदित्य नमस्कारम् करिष्ये ॐ ेषयन्नमृतं यञ्च हिरण्येन कविनादि भूवनाविपन् अग्निम् धूतहे महेभूता वेदसम् अस्य यज्ञस्य सुख्रतुम् पशूनाम् चतुष्पधवमुत च कृपा निष्क्री यम् आय दूरायूयशा यजमाणि सन्तु ेवता प्रत्यमः ॐ तु विश्वकः सोम वृष्ण्यम् भु मे सोमो ेषजा अग्निम् च विश्वसम्भावजीः गौ ही श्रीमिमालिलानि पक्षपीकपीपी पश्च पश्यवी अष्टापदी भवता ॐ अग् मूर्तिः कृ अयम् दे ला, दे ला, ला, ला, ला, स्योना ती पृथिव्या भवानुक्षरातिवेशणी यश्चानश्चेत्र क्षेत्रस्य पतीनाय कुञ्जेती जयामती जयान्ति ॐ अतिदेवता चिदेव देवता चकितायाङ्गारकान्द्रः ॐ अद्वयस्मि चक्रनेत्रे दधे पदम् मसिरे विष्णो रमसि विष्णो लमसि विष्णो स्मरे विष्णुरसूरसि विष्णो ध्रुवमपि वैष्णवश्वा ॐ अल्पसे अति यदर्जो अर्हादि मज्जनीषु यद्धिव यच्छतन्दि हि चित्रम् इन्द्रन्द्रमरुत्वसृजतस्य व प्रणी तव शूरशर्मेमी तेन आवहुज्ञा अस्य ॐ अव शुक्रांग्नियसु पूत जनुषे पत्नी महमश्वरम् जरमरी पतिः अस्माकमस्तु केवलः ॐ अधिदेवताप्रत्यधिदेवतासहिताय शुक्राय नमः ॐ शत्रुष्टयिष्टयो प्रजापदे मत्वा यत्का मानो अयगा यो रीन पतयोरयीन इमम् गिरो विनः संविदानः वहन्ते नाराणेनादयस्व ॐ अधिदेवता प्रत्यदिदेवता सहिताय गणैश्वरायः Everybody is okay so far? Problem? Any issues? Any questions? Doubts? Everybody is okay. Huh? Yes, only, I think only if I keep, you know, keep on practicing that, um, all the uh, other words, the big ones, all come easily. That's okay. I mean, this is how we learn. Right? The more you, you repeat it, the more it comes. Uh, always, initially it will be difficult, but as time goes, do something more easier and easier. The first three it is okay easier, then the next three it slows down. <laughs> so are you uh, ready to learn the next uh, two? Yes. I think that's it. Yes. Okay. Alright. Om Kaya Nash Chitra. श्चित्रया नश्चित्र ॐ शया यया नश्चित्र आभुवधूती आभूवधूती आभूवधुवधू सदा वृधत्सखा सदा व्रावृधत्सखा ृधया नश्चित्र आभूवदूती ॐ कया कयानश्चित्री ओत्री ॐ कयानश्चित्र आभुवदूती सदा ओम सखा ओया दयानश्चित्र आभुवदूती सदा ओम सखा ॐ गया दयानश्चित्राभुवदूती सदा वृध सखा ओके Kaya sa chishtaya vrta. Kaya sa chishtaya vrta. Kaya sa chishtaya vrta. Ayaṁkau prishnirakramit. Ayaṁkau prishnirakramit. बौफनिरक्रमी आ तरम् पुनः असनन् मातरम् पुनः असनन् मातरम् पुनः कृष्निरक्रमेदसनन्मातरम् पुनः कृष्णिरक्रमेदसन्तरं मातरम् पुनः मातरं पुनः ओके असनन् बिको इस् इस् अक्रमीद् प्लस् असनन् बिकम् अक्रमीद् मातरं पुनः वन् मोर् टैम् यं गौ पृश्निरक्रमे दसनन् मातरं पुनः गौ पृष्णिरक्रमे दसन मातरं पुनः आयङ्गौ पृष्णिरक्रमी दसलन् मातरं पुनः सर् ओकेरि it automatically come a question arami thank you how oil becomes from the uh, lifts and after that it come automatic come f sound okay so which is basically is automatic lift don't have to do much effort okay, okay. that settings is okay for everybody yes this is okay vidaran japrajansuvaha vidaran japraj यत् यते देवी देवी विरुधिर् नरुद दिर्र, नरुद दिर्र, नरुद दिर्र, नरुद दिर्र नरुद दिर्र, नर्रुद दिर्र्, नरुद दिर्र नरुद दिर्र, नरुद दिर्र, नरुद दिर्र, नरुद दिर्र, नरुद दिर्र, ok, got it, नरुद दिर्र. Ah— भ्बन भ, बन्धव आबबन्ध दाम दाम दाम ग्रीवास्व ग्रीवास्व ग्रीवास्व पिचर्त्यम् विचर्त्यम् पिचर्त्यम् ग्रीवास्वविचर्त्यं ग्रीवास्वविचर्चीवाचर्त्य बोटेडुगेद डोन्ट स्टो ए मच ओके ग्रीवास्वविचर्त्यं ग्रीवास्वविचर्त्यरे निर्वृत यत्ते देवी निर्दिराबन्ध निर्ृसर्ला भवन्ध दामग्रीवासविचर्त्यम् दामग्रीवासविचृत्यम् दाम यत्ते देवी निर्दिराभवन् सदा स्वविचर्त्यम् यत्ते देवीवास्वविचर्त्य निर्वृति निर्बबन्ध निर्वृतिराबबन्धु निवृत् निर्वृतिरा निर्बन्ध निृतिराबन्ध ओके नो यत्ते देवी निरृतिराबबन्धदामद्रीवास्वमित्यम् यत्यस्ते देवी निर्वृतिराबवन्धामीवासमि च गुड एनिबी हेज् डिफिकल्टी विदन्ते īdaṃ te tadviṣyām tadviṣyām tadviṣyām yāyuṣo yāyuṣo yāyuṣo tadviṣyām yāyuṣo tadviṣyām yāyuṣo ्यायुषो न मध्यादथा न मध्या तथा जीवः न मध्यादथा जीवः सर्व कियत् वर्ड् पितुमध्ये प्रमुख्या Dathajiwa. Yeah, we'll put it together, but I'm just ah, putting, okay. split it up, right? Ah. We'll, when it comes to that, we'll come to uh, the thing. So yeah, it'll come, Madhyadadhajeevah, Pramodha. Yeah. This is Vsaragavarpe Pakara, it becomes left sound. Don't yeah. worry about it. It's always the same. Okay. okay? okay. And now, stop there. I don't have any Pakara after that. So I have to say, Madhyadadhajeevah. Okay. When Pakara comes after that, only I have to make it in left sound. Because there's nothing there, you cannot. Okay. okay it's called sandhi okay <laughs> yeah. Yeah. for example everybody won't having huh? some a uh, disturbance for so is just mine no i think it is sura i think he is uh, are you on uh, uh, on a uh, speaker phone or something uh, yeah no, i am headphones. on phone yeah maybe huh? i should switch i am on yeah. uh, headset i am also on speaker phone but no no i think okay. it's not coming from you it's coming from sura Okay. Oh, okay. Yeah. Yeah. Now I think it's clear. I don't hear anything now. Yeah, it's clear Good. now. Yeah. yeah, okay. Okay. Idhan de tad vishyam ya yusho Idhan de tad vishyam ya yusho Idhan de tad vishyam ya yusho Namadya tadha jiva fadha जीवः जीवः ल् जीव्या तथा जीव जीवः न मध्या तथा जीवः पितुमद्धि प्रमुक्तः ओके लिटल् बेट् बेट् ओके नेक्स्ट् होल् इदन्ते तद्विश्यां यायुषो यायुषो न मध्यात पितुमध्यप्रमुक्तः ओके दैट् मोर् इदं ते तद्विष्याम्यायुषो न मध्या तथा जीवः पितुमध्ये प्रमुक्तः प्रमुक्तः प्रमुक्तः बिट्र नौटर् ओके ॐ अधिदेवता प्रत्यधिदेवता सहिताय राहवे नमः इण्डिविजलि आफ़् दे कया नश्चित्र आभूवदूदि स धृधत्सखा कयाशचिष्टयावृता आयङ्गौः पृश्निरक्रमेदशनिन्मातरम् पुनः पितरम् च यत्ते देवी निरृदिराभबन्ध मग्रीवास्वभिचर्त्यम् इधम् ते तद्विश्याम्यायुषो न अधिदेवता प्रत्यधिदेवता जीवः पितुमद्धिप्रमुक्तः ओम् अधिदेवता प्रत्यधिदेवतासहिताय राहवे नमः भूति सदा सखा तयाश्चिष्टया कृता आयायङ्गीरक्रमीलसनतरम् पुनः च प्रयन्त् सुवः यस्ते देवी निवृतिरा चलन्ति तद्धिश्याम् न मन्द्याुम विद्रुमध्यक्तः ेवता प्रत्यदिदेवता सहिताय रा नमः ॐ कया नश्चित्र आभुवद्धूति सदा वृथा वृधः सखा कयाय सचिष्ठया वृथायङ्गा ृश्निरक्रमिदनन्मातरम् पुनः वितरम् च प्रयन्सुवः यजते देवि निरुतिरा बभन्तताम् क्रिया विचक्यम् ओम् अधिदेवता प्रत्यमः Familiar, but um, I think we have to — या सदा वृध कया शचिष्ठयावृता आयङ्गौ कृष्णिरक्रमीदसनन्मातरम् पुनः पितरम् च प्रयन्सु यत्ते देवी निरृतिराबन्धदामग्रीवास्वविचर्त्यम् इदम् ते तद्विश्याम्यायुषो न मध्या तथा जीवप्रमुक्तः ओम् अधिदेवता प्रत्यमः तदा वृथ खा कया प्रचिष्ठया वृथा आयङ्गौ वृष्णिरक्रमी दसनन् मातरम् पुनः पितरम् च प्रयन्सु वः यत्ते देवि ीवास्व विचक्यम् इदन्ते तद्विष्याम् यायुषो न मद्या पितृमध्यितुमध्ये ओके पितुमद्धि प्रमुक्तः पितुमद्धि प्रमुक्तः करेक्ट् करेक्ट् ॐ अधिदेवता प्रत्यधिदेवता सहिताय राहे नमः वेरि गुड् Who wants to try next? I can go, Hayri. Okay, go ahead, Vishayji. Om Kaya Nas Chitra Abova Dudi Sadha Vridha Sakha Kaya shaj Shajishtaya Vrta Ayaṃgav Ayaṃgav Ayaṃgav Ayaṃgav Ayaṃgav Ayaṃgav Ayaṃgav ्रमे सनन्मातरसन अक्रमेदसनन् दसनन मातरं पुनः इतरं च प्रयत्सुवः प्रयन्सुवः प्रयन्सुवः प्रयन्सुवः यत्ते देवी निबवन्धद युषो न मद्या तदा जीव पितुमध्ये प्रमुक्तः ॐ अधिदेवता प्रत्यधिदेवता सहिताय ओ कया न चित्र आभुवदूदी सदा वृध सखा कया सजिष्टया वृता यं गौ पृचिरक्रियौश्निरक्रमेदशनन् आयङ्गौ पृच्छीरक्रमेद् पृश्निरक्रमीद् पृश्नियङ्गौ पृष्ठीश्निर मातरं पुनः <laughs> स्मिरक्रमेन्मातरं पुनः पितरं च प्रयवन्सुभः यत्ते देवी निर्हृदिरा भवन्त दामस्ग्रीवास्य व ग्रीवास्व विचर्त्यम् इदं ते तद्दिश्याम्यायुषो न मध्य दधा जीवः प्रमुक्तः ॐ अधिदेवता प्रत्यधिदेवता सहिताय दाहवे नमः Anybody else? Can I try, Hari? Yes, go ahead. Om Kayanas Chitra Puvadu Thipata Vrithas Saha Sakha Sata Vrithas Saha Sakha a. It's a, the, the, the, the second Kha oh. Sada Vrithas Sakha Sata Vrithas Saha सदा वृथ स सखा चिया वृताः प्रश्निरक्रमे दशनन्मातरं पुनः पितरं च प्रयं सुवः ग्रीवास्वविचर्त्यम् ग्रीवास्वविचर्त्यम् इदम् ते तद्विष्याम्यायुषानमतायुषो युषो न देवता ्यथिदेवतासहिताय राहवे नमः वेरि गुड् इस् दास्ट् पार्ट् ॐ खेदु कृण्वन् ॐ केतुं कृण्वन् ॐ केतुं कृण्वन् ॐ खेतुं कृण्वन् केदवे Om, Om ke tum krand vanna ketave Om, Om ke tum krand vanna ketave Te sho marya Te sho marya Te sho marya Apeshase e. apeshasee apeshasee ape. ape ape ape pesho marya apeshasee ape. ape. pesho marya apeshasee pesho marya apeshasee om ape. khedum ape. ape. ape. ape. ape. ape. krishnavannaketa um be र्या अपेषसे ॐ केतुकेतवेशो मर्यापेष कृो मर्या अपेषसे ए यथा यदा समुष धीरथा यथायथायथाके विद्या ब्रह्मादेवानाम् ब्रह्मादेवाना ब्रह्मादेवाना ब्रह्मादेवाना पदवीवाना आं पदवीवी ब्रह्मादेवाना आं ऋषिर् विप्राणाम् पुट् इदर् ओके इट् इस् कवी नाम ऋषिर्विप्राणाम् ऋषिर्विप्राणाम् ऋषिर्विप्राणाम्प्राणाम् ऋषर्विप्राणाम् mahishor mruganaam mahishor mruganaam mm. mahishor mm. mruganaam that is okay any words there uh, difficulty there no let's try to repeat uh, into two and then try it okay ब्रह्मा देवानाम् पदवी कवीनाम् ब्रह्मादेवानाम् कवीना निसर्गे सौण्ड् ओकेल् कम् त्रो ब्रह्मा देवाना आम् पदवीः कवीनाम् ब्रह्मादेवाना पदवीः कवीना ब्रह्मादेवानाम् पदवीः कवि ऋषिर्विप्राणाम् महिषो मृगाणा ऋषर्विप्राणा महिषो मृगाणा ऋषि ऋषि मृगाणा ब्रह्मादेवानाम् पदवीः महिषो मृगाणाम् ब्रह्मादेवानाम् पदवीः कविनाम् विभ्राणाम् महिषो मृगाणा ब्रह्मादेवानाम् पदवीः कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणाम् is that carry over to okay with that line these yeah. yeah. any questions mm -hmm. next line i'm going to split up okay when you put it okay. together it will be said different so let's get the words correct then we'll put it together okay there'll be slight difference when you put it together yeah okay? okay. cheno gridrana रुद्रागम् it should come down we'll come to do that later okay swara will okay. fix later let's get the words correct okay, okay. so mah pavitram so mah so pavitram som mah pavitram pavitram ateeti pavitram ateti pavit पवित्रमध्येतिरेभन्न पवित्रमतिरेबन्वित्र पवित्रमप्येतिरेभन्न सोमः पवित्र मध्येतिरेभन्न सोम पवित्रे ओके न स्लोलि पुट् थिङ्ग्स् टुगेदर्े नो रुद्रा इोड् बै अ इ नागे शे नवशागेदर् सो दोस् बोत् हेव् टु कम् डौन् लेट् ओट् शेनो रुद्रा नाग स्वर् vana nogam shino gridrana no, agsvadividhir vana ah. gas again, again, no, okay, no, we'll again. okay okay no, okay okay sheno gridrana agsvadividhir vana agam ye ेनो रुद्राणाभस्वीरु वनाहुपच्येनो रुद्राणाभस्वीरु वनाहु सोमः पवित्र मध्ये भन्न सोमः पवित्र मध्येतिरेभन्न Let's try to put it together. Let's see how it comes, okay? This is probably the most difficult line in the whole thing. Yes. <laughs> yes. <laughs> पवित्रमत्वेतिरेधन् क्रुद्धाणां सोम पवित्रमत्वेतिरेधन् ओके ओके Once you get the word, then the swara is a little bit easier, is what I believe, okay? Okay. okay. So, <laughs> once you get the thing, then you can go low or high, it doesn't matter, it will come a little easier. Okay. okay. Sachitra Chitram Sachitra Chitram Sachitra Chitram Chitayan Tamasme चित्रक्षत्र चित्रतामं वयोधाम्ब Chitra Tam Vayodhaam All the words are okay? Any difficulty anywhere? Is it Chitra Tam Vayodhaam? Chitra Tam Vayodhaam Chitra Tam Vayodhaam So let's try the whole line because okay. most of the words are known so it's not that difficult right okay. chitra, chitra chitra chitra chitra is coming in time so chitra chitram chitayant tamasme so chitra chitram chitayant tamasme sa chitra chitram chi चित्रक्षत्रचित्रतमम् वयोधा सचित्रचित्रम् चिन्तयन्तमस्मे चित्रचित्रम् चित्ररयम्क्षत्रचित्रतमम् वयोधयोगा okay that line now yeah yeah because there is no conjunct consonant here so that is correct <laughs> <that> <me. laughs> chandram rayim chandram chandram rayim chandram rayim purviram purviram purviram चन्द्रम् रयिं पुरुवीरम् चन्द्रम् रयिवीरम् चन्द्रम् रयि पुरुवीरम् बृहन्तम् चन्द्रचन्द्राभिर् बृहन्तं चन्द्रचन्द्राम् ृहन्तम् चन्द्रचन्द्राभिर् बृहन्तम् चन्द्रचन्द्राभिर्गृणते बृहन्तम् चन्द्रचन्द्राभिर्गृणते बृहन्तम् चन्द्रचन्द्राभिर्गृणते युवस्व चन्द्रचन्द्राभिर्गृणते युवस्व चन्द्रचन्द्राभिर्गृणते युवस्व चन्द्रचन्द्राभिर्गृणे युयुवस्व okay that uh, sentence more or less we have put it together but we'll do it now any problem with any of the words no words are okay okay let's say the whole sentence now chandram rayim puru veeram bṛhantam candra candra bhir gṛṇate yuvasva चन्द्रं रयिं पुरुवीरम् चन्द्रचन्द्राभिर्गृणते युगस्व चन्द्रं वयीं पुरुवीरम् चन्द्रचन्द्राभिर्गृणते युगस्वन्द्र अधिदेवता प्रत्यधिदेवदा सहिदेभ्यः केदुभ्यो नमः अधिदेवता प्रत्यधि होल्डिङ्ग् ओके ॐ खेदुं कृण्वन्न केदवेपेशो मर्या अपेषसे समुषद्भिरजा यथाः ब्रह्मा देवानाम् पदवी कवीनामृषिर्विप्राणाम् महिषो मृगाणा श्ये नो गृध्राणागस्वतिधिर्वनागुंसोमः पवित्रमत्येधिरेभन् सचित्रचित्रम् चितयन् तमस्मे चित्रक्षत्रचित्रतमम् वयोधा चन्द्रम् रीम् पुरुवीरम् बृहन्तम् चन्द्रचन्द्राभिर्गृणते युवस्व ओम् अधिदेवता प्रत्यधिदेवता स हि देव्यः केदुभ्यो नमः ब्रह्मा समुदधिरज ब्रह्मादेवाना पदवीः कदलीनाम् मृषिभिर्हिषो प्राणा महिषो मृगाणाम् केनो ओके ओके हा चलो शेनो गृध्राणागर्वगृ्रा सोमः पवित्रचित्रं चिदयन्तात्रचित्रतम् वयोध चन्द्रं रयिम् पुरुवीरम् बृहन्तम् चन्द्रचन्द्राति युवसेवता प्रत्यधिदेवताभ्यो नमः I think it's that to get into stuck money in that word <laughs> which word that groṇānākus svagradhānā gruṇ good gruḍdhānākus svadhīrvaṇānāṃ the second part is okay but the first part gruḍdhānākus svadhīrvaṇānāṃ consuma Anyway, let's try try it it, it individually and wherever you are getting stuck, we can can fix okay? Okay. Okay, So who wants to try it, uh, on their own first? I can do it again. Okay, go ahead, Om Ketum ओतुं Apeshase मर्या अपेषसे समुषद्भिरजायथा तमुषद्भिरजायथाः ब्रह्मा देवाना आम् पदवीप्तवीना मृषिर्विप्राणाम् महिषो मृगाणा आम् श्येनो भृध्राणाग स्वधिथिर्वनानागुम् सोमः पवित्रमह्येति रेबन् सचित्रचित्रम् चितयन् तमस्मे चित्रक्षत्रचित्रतम् तमम् वयोधाम् चन्द्रं रयिं पुरुवीरम् बृहन्तं चन्द्रचन्द्राभिर्गृणते युवसु ॐ अधिदेवता प्रत्यधिदेवता सहितेभ्य केतुभ्यो नमः केतु तुम्... ॐ केतुं कृतवे पेषो मर्य अपेषसे समुषद्भिरजायथाः ब्रह्मादेवारा पदवी कवीनां कवीनां मृषिर् मुष... मुष... ृषिर्विप्राणाम् महिषो मृगाणाम् शेनो क्रुध्राणा तु स्वतिर्वणाना स्वा, स्वा, स्वाधी, पुं सोमः पवित्रमत्येतिरेभन् सचित्रचित्रम् चितयन्मस्मे चितयन् तमस्मि चित्रक्षत्रित्र चित्रक्षत्रचित्र मम् वयोधा दाम चन्द्रं रयिं पुर्वीरम् बृहन्तम् चन्द्रचन्द्राभिर्गृणते युवस्व ॐ अधिदेवता प्रत्यधिदेवता सहितेभ्यः केतुभ्यो नमः I think that for that I hold to keep guy. Need to break it that's all it's okay. I mean you got it. You. Who wants to go next? Can you try? Yes, go ahead. Om kedam kun vannake da ve pesho madhya apesase samosa समुषद्भिद जायथाः ब्रह्मा देवानाम् पदविकवीनां ऋषिर्विप्राणां महिषो मृगाणां श्ये नो गृध्राणागुंसा स्वधीतिर्व नानागुं सोमः पवित्र न् सचित्र चित्रं चिदयन्तिदयन्तमस्मि चित्रक्षत्र चित्रतमं वयोधाम् चन्द्रं जयि पुरुवीरम् प्रहन्तं चन्द्रचन्द्राभर्दृणदे युवस्व ओ अधिदेवता प्रत्यधिदेवता सहितायुभ्योदाय बुक् अधिदेवता प्रत्यधिदेवता सहिदाय केतवे नमः Who wants to try next? I can yes, go ahead, ॐ केदु कृणन्न केतवे पेशो मर्या अपेषसे समुषद्भिरजायताः ब्रह्मादेवानाम् पदवी कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणा श्वेनो गृद्राणागम् स्वदितिर्वनागुम् सोमपवित्रमत्रेधि रेबन् सचित्रचित्रम् इदयन् तमस्मेमस्मे मस्मे वयोधां वयोधाम् चन्द्रम् रयिम् पुरुवीरम् बृहन्तम् चन्द्रचन्द्राभिर्गृणते युवस्वा ओम् अधिदेवता प्रत्यधिदेवता सहि देभ्यः केतुभ्यो नमः किं गो नो यः किं गु ॐ केतुं कृतवे पेषो मध्या अपेशे ए समुषथिरजायथा ब्रह्मा देवाना अदवीः कविः पदवी कविः पदवीः कवीनाम् कवीना मृषिर्विप्राणा महिषो मृगाणाम् श्वे श्वेनो गृत्राणा कृणा ेनो गृध्राणागस्वधिर् श्वेनोधिर् स्वधिर्वाधनागम् शेनो घृद्राणागस्वधिर्वानागम् श्नो घृध्रणाघ स्वतिर्पणानागुं सोमः प्रवित्रमत्ये धीरेभन्न सवित्र चित्रम् चितयन्तमस्मे चितयन्तमस्मे चित्रक्षत्रचित्रतमं वयोथाम् चन्द्रं चन्द्रं रयीं पुरुष् ृहतं हन्त चन्द्रं चन्द्राफिर्कृणते कृणतेर्युवस्व ओमधिदेवता प्रत्यथिदेवता स हि देभ्य केतुभ्यो नमः Let's do the last part also, then we can practice this to what we learned today one more time, if people have time. It's 9.46, if that's okay, we can still uh, take a couple of more minutes if that's okay with everybody. Okay. Okay. Om Aditya Di Navagraha Devada Bhyona Munamaha ॐ आदित्यादिनवग्रहदेवताभ्यो नमो नमः शान्तिः शान्तिः om shanti shanti shanti let's uh, uh, do once together what we learned today and then we stop okay. for the day okay okay the next class we'll practice it and then we'll probably do the uh, sanyasus uh, sukta which is not nagarmana na, uh, na, na praya okay? Okay. okay okay let's do what uh, do together what we learned today once okay Ready? न् टु त्रि ओम् आयम् ओः कृष्णिरक्रमेतसन्मातरम् पुनः पितरञ्च प्रयन्तु वः यत्ते देवी निर्विरामबन्धताम देवा स्वविचत्यम् इदम् ते तद्विष्याम् यायुषो न मद्या अधिदेवता प्रत्यधिदेवता सहिताय दाहवे नमः ॐ केतुं कृण्वन्न केदपि तेषु मर्या अपेषसे समुषद्भिरशायथाः ब्रह्मा ेनो गृध्राणा गिदुर्ना स्वपमः पवित्रमप्येभिरेभन्न सचित्र चित्रं चिन्तयन्तमस्मे चित्रक्षत्रचित्रतमं वयोधा चित्रक्षत्रचित्रतमं रयिं कुरु वीरम् बृहन्तम् चन्द्रचन्द्राते युवस्व ॐ अधिदेवताप्रत्यधिदेवता प्रहि देव्ये दुभ्यो नमः ॐ आदित्यादिनवग्रहदेवताभ्यो नमो नमः ॐ शान्ति शिःशान्तिःशान्तिः Okay? Everybody is okay with that? Okay, words are okay, but we have to keep practicing that. Yeah, that next week we will practice this whole thing, and then uh, that Karmanana uh, Prajaya is pretty uh, easy, simple. We have heard it, so it will be easier. So I'm assuming that we should be able to do both next week. Okay. Okay, let's do three Logasamista and stop for the day. Sorry that it took a little longer than we expected. Okay. खिनो भवन्तु ॐ शां शां श्रीः ॐ श्रीगुरुग्रो नमः हरिः ओ